श्रीमद्भागवत् महापुराणं पञ्चं स्कन्ध अथ त्रयोदशोऽध्यायः भवाट्वीका वर्णन् अवरघुगणका संशयनान् ब्राह्मण उवाच दुरत्यये ध्वन्यजया निवेशितो रजस्तमसत्त्वविभक्तकर्मदे सा ये स सार्थोऽर्थपरपरिभ्रमन् भवाटविन्द्याति न सर्वविन्दते यस्यामिमे सन्नरदेवदस्यव सार्सं विलुम्पन्ति कुनायकं कम्बलात् गोमायवो यत्र हरन्ति सार्थिकं त्रमद्यमावेश्य सोरलमृकाः अभूतवेरो तृणगुल्मगह्वरे कठोरदन्तैर्मसकैरुपद्रुतः क्वचित्तु गन्धर्वपुरं प्रपश्यते क्वचित् स्वं त्वक्च्चान्तर्योण्मुपग्रहम् निवासतो य द्रविडात्मबुद्धे ततस्ततो धावतिम्भो अट्टव्यां क्वचिच्च वात्योत्थितपां सुम्रादिशो न जानाति रजस्वलाक्ष अधिश्च जल्लेश्वनकर्णशूला उलूकवाग्भिन्द्यतेतान्तरात्मा अपुण्यवृक्षां श्रयते सुधार्तितो मरीचितो यान्यवीं धावति क्वचित् क्वचिद् द्वितीयोऽं द्वितो याः सरितोऽभियाति परस्परं चालसते निरद्ध आसाद्यदावं क्वचिदग्नितप्तो निर्विद्यते क्वच्यक्षैर्हिताशुरहितस्वं क्वच निर्वृणन्त्येताः शोचन्ति मुह्यन् प्रयाति कस्मलं क्वचिच्च गन्धर्वपुरं प्रविष्ट प्रमोदते निमृतुवन्नुहृतम् चरन् क्वचित् कण्टकशर्कराङ्घे नगारुरुक्षोर्विमना इवास्ते पदे पदेभ्यन्तर्वन्षिनार्जितकौटुम्बिक क्रुद्धति वेजनाय क्वचिन्निकिरणोन् जगराहिना जलोन् नावैत किञ्चिन्दिपिनेपविद्ध दष्ट स्मशेते क्वचं कर्हि स्म चेच्छोन्द्रस्नानमिचिन्मं तन्मक्षिकाभिर्व्यसितो विमार सत्राचकित्सान्तसि लब्धमालो बला विलुम्पन्तशतं ततोऽन्ये क्वचित्य सीतां तपोवातवर्षप्रतिक्रियां कर्तुमनीष आस्ते क्वचिन्मिथो विप्रणं यच्च किञ्चिन् विद्वेदमिच्छद्युतं विद्वसाक्षात् क्वचित् क्वचिन्धनस्तु तस्मिन् सैयासनस्थानविहारहीनः याचनपराद प्रतिलब्धकामपारज्ञष्टिर्लभतेव मानम् अन्नोन्नविद्या व्यतिषङ्गवृद्धवैरानबन्धो विह्वन्वितश्च नध्वन्नमस्मिन्नुकृथ्यवित्त बाधोपसर्गैर्विहरन् विपन्न तां तान् विपन्नां स हि तत्र, तत्र। विहाय जातं परिगृह्य सार्थावर्तते द्यापि न कश्चिदत्र योगम् अनस्विनो निर्जितं दिग्गजेन्द्रा ममेति सर्वे भुवि बद्धवैराः मृधे शरीन् मृधेशरीरन्नतो तद्व्रजन्ति यन्यस्तदण्डो गतवैरुभयाति प्रसज्यति क्वापि लता भुजाश्रयस्तदाश्रया व्यग्रपदद्विजस्पृह क्वचित्कदाचेन्धरितं कृतस्रंस्रसं सङ्ख्यं विधत्ते बहुकङ्कगृद्धे तैर्वञ्चितो हंसकुलं क्षमाविशं न रोचयन् शीलमुपैति वानरान् तज्जातिरासेन सुनिवृतेन्द्रिय परस्परोद्वीक्षणविस्मृतावधि ध्रुमेसुरस्यन् सुतन्दारवसलो विवाय दीनो विवश सुबन्धरे कचित्प्रमादादगिरे कन्दरे पतन् वल्लीं गृहात् गृहीत्वा गजभीत आसीत् ततः कथञ्चे स विमुक्त आपद पुनश्च सार्थं त्रविसत्यरिन्दम अध्वन्यमस्मिन्न जया निवेशितो समञ्जनोऽद्यापि न वेद तौ गणत्वमपि ह्यध्वनोऽस्य धन्यस्तदण्डकृतभूतमत्रै नैत्रः असञ्जितात्मां हरिसेवयाश्रितं जानासि राजवाच अहो न जन्माखिलजन्मशोभनं किं जन्मभिस्त्वं परैरं न यद्भृदी केशयसकृतात्मनां महात्मनां वा प्रचुरसमागम न यदद्भुतं तच्चरणाब्जयम् जरेलुभि हताहसों भक्तिरसोऽक्षयेमला मुहूर्तिकाद्यस्य समागमाचिमये दुस्तर्कपोलोपहतो विवेकः नवो महद्भ्योऽस्तु नमः शिशुभ्यो लभो जिवभ्यो आवतुभ्य ये ब्राह्मणा गामवधूतलिङ्गाचरन्ति तेभ्य शिवमस्तु राज्ञां शिशो उवाच इत्येवमुत्तरामात स वै ब्रह्मर्षिष्युतः सिन्धुपतय आत्मसदत्वं विगणयतः परानुभाव कर्मकारुणिकं तयोपदिश्य रघुकलेन सकरुणम् अभिवन्दितश्चरण आपूर्णं नव इव निभिद्यकर्णोर्म्याशयो धरणिमिमां विचार स्ववीरपतिरपि सृजनशमो भगत परमात्मसत्त्वम् आत्मन्यविद्याध्यारोपितां च देहात्ममतिं विससर्ज एवं हि राजवाच भगवता श्रिता श्रितानुभावः महाभागवत योऽहवापिहं परोक्षेन महाभागवत तयाभितपरोक्षेण वचसा जीवलोकाभवाध्वा सहार्यं मनीषया कल्पितविषयोन्नाद्यसाव्युत्पन्न लोकसं। लोकसमधिगमः अथ तदेवैतदूरभगवं समवेतानुकल्पेन निर्दिश्यतामिति श्रीमद्भागवती महाबुराणे परमपारं हां शयितायां पञ्चमस्कन्धे